अथ तन्त्रोक्तम् रात्रिसूत्रम् ओम् विश्वेश्वरीम् जगद्ध्रात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवतीम् विष्णोरतुलाम् तेजसः प्रभोः ब्रह्मोवाच त्वम् स्वाहात्वम् स्वधात्वम् हि वषट्कारस्वरात्मिका सुधात्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिता अर्थमात्रा स्थिता नित्यायानुच्चार्या विशेषतः त्वमेव सन्ध्या सामित्री त्वम् देवि जननी परा त्वयैतद्धार्यते विश्वम् त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा विसृष्टो सृष्टिरूपा त्वम् स्थितिरूपा च पालने तथा संहृतिरूपाम् ते जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवति महादेवी महासुरी प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वम् श्रीस्त्वमीश्वरी त्वम् ह्रीस्त्वम् बुद्धिर्बोधलक्षणा लजा पुष्टिस्तथा तुष्टिस्त्वम् शान्तिः क्षान्तिरेव च खिनी शूरिनि घोरागदिनी चक्रिणी तथा शङ्खिनी चापिणी बाणभुषुण्डी परिघायुधा सौम्या सौम्यरराशेष सौम्येभ्यस्त्वति सुन्दरी परापराणाम् परमा त्वमेव परमेश्वरी यच्च किञ्चित्क्वचिद्वस्तु सततद्वाखिलात्मिके तस्य सर्वस्य शक्ति या शक्तिः सा त्वम् किम् स्तूयसे तदा यया त्वया जगत्स्रष्टा जगत्पात्यतियो जगत् सोऽपि निद्रावशम् नीतः कस्त्वाम् स्तोतुमिहेश्वरः विष्णुः शरीरग्रहणमहमीशान एव च कारितास्ते यतो तस्त्वाम् कस्तोतुम् शक्तिमान् भवेत् सा त्वमित्थम् प्रभावैस्वैरुदारैर्देवि संस्तुता मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ प्रबोधम् च जगत्स्वामीनि यतामच्युतो लघु बोधः शक्ति हन्तुमेतौ महासुरौ इति रात्रिसूक्तौ